अरण्यकाण्डं सर्गं सिक्स् विचिन्त्यैवं निशायां सप्रभादे रथमास्थितः रावणो मनसा कार्यमेकं निश्चित्य बुद्धिमान् ययौ मारीचसदनं परं पारमुदन्वतः मारीचस्तत्र मुनिवज्जडावल्कलधारकः ध्यायन् हृदि परात्मानं निर्गुणं गुणभासकं समाधिविरमे पश्य द्रावणं गृहमागतं द्रुतमुद्धाय पूजयित्वा यथा कृतातिथ्यं सुखासीनं मारीचो वाक्यमब्रवीत् समागमनमेतत्ते रथेनैकेन रावण चिन्तापर इवाभासि हृदि कार्यं विचिन्तयन् ब्रूहि मे न हि गोप्तं चेत् करवाणि तव प्रियं नाह्यं चेत् ब्रूहि राजेन्द्रवृजिनं मां स्पृशेन्नहि रावण उवाच अस्तिराजा दशरथसाकेताधिपधिः किल रामनामासुधस्तस्य ज्येष्ठसत्यपराक्रमः विवासयामास वनं वनजनप्रियं भार्यया सहितं भ्रात्रा लक्ष्मणेन समन्वितं स आस्ते विपिने खोरे पञ्चवट्याश्रमे शुभे तस्य भार्या विशालाक्षी विमोहिनी रामो निरपराधान्मे राक्षसान् भीमविक्रमान् करं च हत्वा विपिने सुकमास्ते निर्भयः भगिन्या शूर्पणखाया निर्दोषायाश्च नासिका कर्णौ चिचेदुष्टात्मा वने अतत्वया सहायेन गत्वा तत्प्राणवल्लभाम् आनयिष्यामि विपिने रहिते राघवेणतां त्वं तु मायामृगो भूत्वा ह्याश्रमादपनेष्यसि रामं च लक्ष्मणं चैव तदासीताम् म्यहम् त्वं तुस्तावत्सहाय्यं मे कृत्वास्त्यास्यसि पूर्ववद इत्येवं भाषमाणं तं रावणं वीक्ष्य विस्मितः केनेदमुपदिष्टं ते मूलघातकरं वचः स एव यस्त्वन्नाश्यं प्रदीक्षते रामस्य पौरुषं स्मृत्वा चित्तमद्यापि रावण बालोपि माम् कौशिकस्य यज्ञसंरक्षणाय सः आगतस्त्विषु नैकेन वादयामास योजनानां शतं रामस्तदादिभयविह्वलः स्मृत्वा स्मृत्वा तदेवाहं रामं पश्यामि सर्वतः दण्डकेऽपि पुनरप्यहं वने पूर्ववैरमनुचिन्तयन् हृदि तीक्ष्णशृङ्गमृगरूपमेकथा माधृश्यैर्बहुभिरावृतोऽभ्ययां राघवं जनकजासमन्वितं लक्ष्मणेन सहितं त्वरान्वितः आकतोहमध हुमुद्यतो मां विलोक्य शरमेकम क्षिपत् तेन विद्वहृदयोहमुद्भ्रमन्त्राक्षसेन्द्रपतितोऽस्मि सागरे तत्प्रभृत्यहमिदं समाश्रितस्थानमूर्जितमिदं भयार्दितः रामेव सततं विभावये भीदभीद भीद इव भोगराशितः राजरत्नरमणीरथादिकं श्रोत्रयोर्यदि गदं भयं भवेद राम आगद इहेदिशङ्गया बाह्यकार्यमपि सर्वमत्यजं निद्रया परिवृतो यदा स्वपे रामेव मनसानुचिन्तयन् स्वप्नदृष्टिगतराघवं तदा बोधितो विगदनिद्रास्थितः तद्भवानपि विमुच्य चाग्रहम् राघवं प्रतिगृहं प्रयाहि भोः रक्षराक्षसकुलं चिरागदं तत्स्मृतौ सकलमेव नश्यति तव वददो मम भाषितं परिगृहाण परात्मनि राघवे त्यजविरोधमदिं भज भक्तितः परमकारुणिको रघुनन्दनः अहमशेषमिदं मुनिवाक्यतोशृणवमादियुगे परमेश्वरः ब्रह्मणार्दिद उवाच तं हरिः किं तवेप्सिदमहं करवाणि तत् प्रयाहि भुवि मानुषं वपुः दशरथात्मजभावमञ्जसा जगिरिपुं दशकन्धरं हरे अदो न मानुषो रामः साक्षान्नारायणोऽव्ययः मायामानुषवेषेण वनं यातोदिनिर्भयः भूभारहरणार्थाय गच्छतात गृहं सुखं श्रुत्वा मारीचवचनं रावणः प्रत्यभाषत परमात्मा यदा रामः प्रार्थितो ब्रह्मणा किल मां हन्तुं मनुषो भूत्वा यत्नादिह समागतः करिष्यत्यचिरादेव सत्यसङ्कल्प ईश्वरः अतोऽहं यत्नदः सीता राखवाद। राघवाद वधे प्राप्ते रणे वीरप्राप्स्यामि परमं पदं यद्वारामं रणे हत्वा प्राप्स्यामि निर्भयः तदुत्तिष्ठमहाभागविचित्रमृगरूपधृक रामं सलक्ष्मणं शीघ्रमाश्रमादधिदूरधः आक्रम्य गच्छत्वं शीघ्रं सुखं तिष्ट यथा पुरा अधः परं चेद्यत्किञ्चिद्भाषसे हनिष्याम्यसि नानेनत्वामत्रैव न संशयः मारीचस्तद्वच श्रुत्वा स्वात्मन्येवान्वचिन्तयत् यदि मां चेद्दुष्टस् तदा मे निरयोध्रुवं यदि निश्चित्यमरणं रामादुधाय वे गतः अब्रवीरावणं राजन् करो म्याज्ञां तव प्रभो इत्युक्त्वा रथमास्थाय गतो रामाश्रमं प्रति शुद्ध जाम्बूनदप्रख्यो मृगो भूद्रौप्यबिन्दुकः रत्नशृङ्गो मणिखुरो नीलरत्नविलोचनः विद्युत्प्रभो विमुग्धास्यो विचचारवनान्तरे रामाश्रमपदस्यान्धे सीता दृष्टिपथे चरन् क्षणं च धावत्यवतिष्ठते क्षणं समीपमागत्य पुनर्भयावृतः एवं स मायामृगवेषरूपदृक् चचारसीतां परिमोहयन् कलः इति श्रीमदध्यात्मरामायणे उमहर संवाद अर्ये षसर्ग है ओ